हरि ओम् जय जगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे तृतीयस्कन्धे प्रथमोऽध्यायः भगवन् भवता प्रोक्तम् यज्ञम् अम्बाभिधम् महेत् सा काकथम् समुत्पन्ना कुत्र कस्मा च किम् गुणा कीदृशश्च मखस्तस्य स्वरूपम् कीदृशम् तथा विधानम् विधिवद्रूहि सर्वज्ञोसि ब्रह्माण्डस्य तथोत्पत्तिम् वद विस्तृतस्तथा यथोक्तम् यादृशम् ब्रह्मन् अखिलम् वेत्ति भूसुर ब्रह्मा विष्णुश्च रुद्र च त्रयोदेवा मया श्रुता सृष्टिपालनसंहारकारे महात्मान पार्याश्चर्य वद स्वमे अहोस्वित् परतन्त्रास्ते श्रोतुमिच्छामि साम्पतम् मुत्युधर्मा च तेनो वा सच्चिदानन्दरूपिणः अधिभूतादिभियुक्ता न वा दुःखै त्रिधात्मकै कालस्य अवश्य नो वा ते सुतन् सुरेन्द्र महाबलः कथं ते वै समुत्पन्ना कस्मादीति संशयः हास्यचोकयुतास्ते वै निद्रालयस्य समन्वितः तत्तथा तु मया तेषां देहा किं वा अन्यथा मुने कैर्द्रव्ये निर्मितास्ते वै कैर्गुणै इन्द्रियैस्तथा भोगश्च कीदृशस्तेषाम् प्रमाणम् आयुषस्तथा निवासस्थानमप्येषाम् विभूतिम् च वदस्वये श्रोतुमिच्छाम्यहम् ब्रह्मन् वित्तरेण कथामि माम् व्यास दुर्गमः प्रज्ञभारोऽयम् कृतो राजन् त्वयाधुना ब्रह्मादीनाम् समुत्पत्तिः कस्मादिति मामते एतदेव मया पूर्वम् पृष्टो सो नारदो मनी विस्मितप्रत्युवाचेदमुत्थित शृणु भूपते कस्मिंश्च समये चाहम् गङ्गातीरे स्थितमुनिम् अपश्यम् नारदम् शान्तम् सर्वज्ञम् वेद दृष्ट्वाहम् मतितो भूत्वा पादयोपतम् मने सेनाज्ञप्तसमीपे संविष्टश्च वरासने श्रुत्वा कुशलवार्ताम् वै तमपृच्छम् विधे सुतम् निविष्टम् जाह्नवीती निर्जने सूक्ष्मबालुके मुनेति वितरस्यास्य ब्रह्माण्डस्य महामते कः कर्ता परमप्रोक्त तन्मे ब्रूहि विधानतः कश्चतत् समुत्पन्नम् ब्रह्माण्डम् मुनिसत्तम अनित्यम् वा तथा नित्यम् तदा चक्ष्व द्वियोम एककर्तृकमेतद्वा बहुकर्तृकमन्यथा अकर्तृकम् न कार्यम् स्यात् विरोधोऽयम् विभाति मे इति सन्देह सन्दोहे मग्नम् मां तार अधुना विकल्पकोटि प्रविस्तरे ब्रुवन्ति शङ्करम् केचिन् मत्वाकारणकारणम् सदाशिवम् महादेवम् प्रलयोत्पत्तिवर्जितम् आत्मारामम् सुरेशम् च त्रिगुणम् निर्मलम् हरम् संसारतारकम् नित्यम् सृष्टिस्थित्यन्तकारणम् अन्ये विष्णुम् सुवन्त्येनम् सर्वेषाम् ब्रह्मीश्वरम् परमात्मानमव्यक्तम् सर्वशक्तिसमन्वितम् भुक्तिदं मुक्तिदं शान्तम् सर्वादिं सर्वतोमुखम् व्यापकम् विश्वरमशरणम् अनादि निजनम् हरिम् दातारं च तथा चान्ये कुर्वन्ति सृष्टिकारणम् तम् एव सर्ववेत्तारं सर्वभूतः प्रवर्तकम् चतुर्मुखम् सुरेशानं नाभिपन्नभवं विभुम् भ्रष्टानाम् सर्वलोकानाम् सुत्यलोकनिवासिनम् दिनेशम् प्रवदन्त्येते सर्वेषाम् वेदवादिनः स्तुवन्ति चैव गायन्ति सायम् प्रातरन्द्रिता यजन्ति च तथा यज्ञे वासवम् च शतक्रतुम् सहस्राक्षम् देवदेवम् सर्वेषाम् प्रभुमूलबम् यज्ञाधीशम् सुराधीशम् त्रिलोकेशम् शतीपतिम् यज्ञानाम् चैव भोक्तारम् सोमपम् सोप सोमपप्रियम् वरुणम् च तथा सोमम् पावकम् पवनम् तथा यमकुबेरम् धनदम् गणाधीशम् तथा पुरे हेरम्बम् गजवक्त्रम् च सर्वकार्यप्रसाधकम् स्मरणात् सिद्धिदम् कामम् कामधम् कामकम् परम् भवानीम् केचनाचार्या प्रवदन् च अखिलार्थम् आदिमायाम् महाशक्तिम् प्रकृतिम् पुरुषानुगाम् ब्रह्मैकतामसन्तापन्नाम् सृष्टिस्थित्यन्तकारिणीम् मातरम् सर्वभूतानाम् देवतानाम् तथैव च अनादिनिदनाम् पूर्णाम् व्यापिकाम् सर्वजन्तुषु ईश्वरीम् सर्वलोकानाम् निर्गुणां सगुणां शिवाम् वैष्णवीं शाङ्करीम् ब्राह्मी वासवीं वारुणीम् तथा वाराहिम् नारसिंहिं च महालक्ष्मीम् तथा भुताम् वेदमातरम् एकाञ्च विद्याम् भवतर स्थिराम् सर्वदुःखनियन्त्रीम् च स्मरणात् सर्वकामदाम् मोक्षदाञ्च ममोक्षूणाम् कामदाञ्च फलार्थिनाम् त्रिगुणातीतरूपाञ्च गुणविस्तारकारकाम् निर्गुणां सुगुणाम् तस्मात् तां ध्यायन्ति फलार्थिनः निरञ्जनम् निराकारम् निर्लेपम् निर्गुणम् किल अरूपम् व्यापकम् ब्रह्म प्रवदन्ति मुनेश्वर वेदोपनिषदि प्रोक्त इति क्वचित् सहस्रशिक्षा पुरुषेन तथा सहस्रक सहस्रै सह विष्णु पदम था विराज विरसम शातम प्रवदी मनीषिण पुषोत्तम तथा चे प्रवदी पुरा विद नईकोपी व्यन्े कु प्रभु कदाचनह अनीश्वरमिदम् सर्वम् ब्रह्माण्डम् इति केचन न कदापिशजन्यं यत् जगदेत अचिन्तितं सदैवीवेदमनीशम् च स्वभावोत्थं सदीदृशम् अखट्टासोपमान्त्रोत्त प्रकृतिस्तु तथा च सा एवं वदन्ति साङ्ख्या च मुनय्य कपिलादयः एते सन्देहसन्दोहा प्रभवन्ति तथा पुरे विकल्पोपहतम् चेत् किं करोमि मुनीश्वरे धर्माधर्मविवक्षायाम् नाम नो मे स्थिरम् भवेत् को धर्म कीदृशो धर्मचिह्नम् नैवोपलभ्यते देवा तत्र गुणोत्पन्ना सिद्धर्मव्यवस्थिता पीड्यन्ते दानवे पापे कुत्र धर्मव्यवस्थिति धर्मस्थिता सदाचारा पांडवा मम वंशजा दुःखं बहुविधं प्राप्ता तत्र धर्मस्य का स्थिति अतो मे हृदयं तत्र वेपतेतीव संशये कुरु मे संशयं चेत समर्थोऽसि महामुने त्र हि ज्ञानभूते न मां मुने भज्जन्तं चोत्पतन्तं च मग्नं इति श्रीमद्देवी भागवते मापुराणे अष्टादशसहस्रां संहितायां तृतीयस्कन्धे पुवने श्रीवर्णनं नाम प्रथमोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु